अथ सप्तदशम् दशकम् उत्तानपादनृपतेर्मनुनन्दनस्य जाया बभूव सुरुचिर्नितरामभीष्टा अन्या सुनीतिरिति भर्तुरनादृता सा त्वामेव नित्यमगतिः दृष्ट्वा ध्रुवः आचिक्षिपे किल सुतराम् सुरुच्या दुःसन्त्यजा खलु भवद्विमुखैरसूया त्वन्मोहितेऽपितरि पश्यति दारवश्ये दूरम् दुरुक्तिनिहतः स गतो निजाम्बाम् सापि स्वकर्मगतिसन्तरणाय पुंसाम् त्वत्पादमेव शरणम् आकर्ण्यसोऽपि भवदर्चन निश्चितात्मा मानी निरेत्य नगरात् किल पञ्चवर्षः सन्दृष्ट नारद निवेदित मन्त्रमार्गस्त्वामारराध तपसा मधुका ननान्ते ताते विषण्णहृदये नगरीम् गतेन श्रीनारदेन परिसान्त्वितचित्तवृत्तौ बालस्त्वदर्पितमनाः क्रमवर्धितेन निन्ये कठोरतपसा किल पञ्चमासन् तावत्तपो बलनिरुच्छ्वसिते दिगन्ते देवार्थितस्त्वमुदयत्करुणार्द्रचेताः त्वद्रूपचिद्रसनिलीनमतेः पुरस्तादाविर्बभूविथ विभो गरुडाधिरूढः त्वद्दर्शनप्रमदभारतरङ्गितम् तम् दृग्भ्याम् निमग्नमिव रूपरसायनेते तुष्टूषमाणमवगम्य कपोलदेशे संस्पृष्टभानसि दरेण तथा दरेण तावद्विबोधविमलम् प्रणुवन्त मे न भजस्व भूयः सर्वोत्तरम् ध्रुव पदम् विनिवृत्तिहीनम् इत्यूचिषि त्वयि आनन्दिताखिलजनो नगरीमुपेतः रेमे चिरम् भवदनुग्रहपूर्णकामस्ताते गते च वनमादृत राज्यभारः यक्षेण देव निहते पुनरुत्तमेऽस्मिन् यक्षैः युद्धनिरतो विरतो मनुक्त्या शान्त्या प्रसन्नहृदयाद्धनदादुपेता त्वद्भक्ति मेव सुदृढामवृणोन् महात्मा अन्ते भवत्पुरुषनीत विमान विमानयातो मात्रासमं समम् ध्रुवपदे मुदितोऽयमास्ते एवम् स्वभृत्य जनपालन लोलधीस्त्वम् वातालयाधिपनिरुन्धि ममामयौघान् इति सप्तदशम् दशकम्